गरुडपुराणम् आचारकाण्डम् अध्यायं ट्वेण्टि सेवेन् ॐ कणिचिकिणी कक्राणि चर्वाणि भूदहारिणि धणिविषिणि विरथनारायणि उमे दहदहस्ते चण्डे रौद्रे माहेश्वरि महामुखि ज्वालामुखि शङ्कुकर्णि शुकमुण्डे शत्रुं हनहन सर्वनाशिनिस्वेदय सर्वाङ्कशोनिदं तन्निरीक्षासि मनस देवि सम्मोहय सम्मोहय रुद्रस्य हृदये जातरुद्रस्य हृदये स्थिता रुद्रो रौद्रेणरूपेण त्वं देवि रक्ष रक्ष मां ह्रों मां ह्रों फ फः स्कन्दमेखला बालग्रह शत्रु विषहारी ॐ शाले माले हर हर विषोङ्काररहि विषवेगे हाम हाम शबरि हुं शबरी आ कौलवेगेश्ये सर्वे विञ्चमेकमाले सर्वनागादिविषहरणम् श्रीकारुडे महापुराणे आचार्यंडे नागा विविध विषहरमंत्रण नाम सप्त्याय ओम।